प्रयोगतोध्याय ध्यानम् ओ बालार्कमण्डलाभाषाम् चतुर्बाहुम् त्रयोतनाम् त्रयोगशोद्ध्याय ध्यानम् ओ बालार्कमण्डलाभासाम् चतुर्बाहुम् त्रिगोतनाम् पासाम् कुशवराभीतीर्भारयन्तीम् शिवाम् भजे पासाम् कुशवराभीतीर्भारयन्तीम् शिवाम् भजे ओम् ऋषिरुवाच एतस्यैकथितम् भूपजेबीमाहात्यमुत्तमम् एतस्यैकथितम् भूपजेबीमाहात्यमुत्तमम् एवम् प्रभावाता देवीय एदम् धार्यकने जगत् एवम् प्रभावा का देवी ययेदम् धार्गणे जगत् विद्या तथैव क्रियते भगवद्विष्णुमाजया विद्या तथैव क्रियते भगवद्विष्णुमायया तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः मोक्ष्यन्ते मोदिता चैव मोहमेष्यन्ति चापरे मोह्यन्ते मोदिता एव मोहमेत्यन्ति चापरे तामुकैः महाराजहरणम् परमेश्वरीम् तामुकैः महाराजम् परमेश्वरी आराधिता सै मृणाम् भोगस्वर्गापवर्गदा आराधिता तै मृणाम् भोगस्वर्गापवर्गदा मार्कण्डेय उवाच इति तस्य वच श्रुत्वा दुरहस्तनराधिपः इति तस्य वचश्रुत्वा दुरहस्तनराभिपः प्रणिपत्य महाभागम् तमृशङ्कम् चितव्रतम् प्रणिपत्य महाभागम् तमृशङ्कम् चितव्रतम् ममत्वेन राज्यापहरणेन च निर्गृह्णोति ममत्वेन राज्यापहरणेन च जगामसद्यत्कपसे सच वैष्यो महामुने जगामसद्यत्कपसे सच वैश्यो महामुने सन्दर्शनार्थमम्बाया नदीकुलिनकम् स्थितः सन्दर्शनार्थमम्बाया नदीकुलिनतम् स्थितः तट वैस्यस्तपत्तेपे देवी सूक्तम् परम् जपन् तत्र वैस्यत्तपत्तेपे देवी सूक्तम् परम् जपन् सौतस्लिनेूर्ति महामयी सौतस्लिनेूर्तिपण अर्णक्रदुस्त पुष्पूपाग्निर्पण निराहारो यह कन्मन स्व सौ निराहारौ यताहारौ कर्मनस्तौ समाहितौ ददुत्तौ बलिविशैकनिजगात्रा दुगुभुषितम् ददुत्तौ बलिविशैव निजगात्रादृगुभुषितम् एवम् प्रवाराधयतोकृभिर्वैर्यतात्मनोः एवम् प्रवाराधयतो कृभिर्वर्षैर्यतात्मनोः परितुष्टा जगद्भास्त्री प्रत्यक्षम् प्राहसन्धिका परिपृष्टा जगद्ध्रास्त्री प्रत्यक्षम् प्राहण्डिका देव्युवाच यद् प्रार्थते त्वया भूप त्वया च कुलनन्दन यद् प्रार्थते त्वया भूप त्वया च कुलनन्दन राम सर्वम् परिपृष्टा ददा वितत राम सर्वम् परिपृष्टा ददावितत उवाच ततो भव्रे नृपो राज्यमभिभ्रंशेन्यजन्मनि ततो भव्रे नृपो राज्यमभिभ्रंशेन्यजन्मनि अत्रैव च निजम् राज्यम् हतशत्रुबलम् बलात् अत्रैवचनिजम् राज्यम् हतशत्रुबलम् बलात् सोऽपि वैश्यसतो ज्ञानम् भव्रे निर्गण्यबालकः सोऽपि वैश्यसतो ज्ञानम् भव्रे निर्गण्यबालकः ममेत्यः इति प्राज्ञः सङ्गपि च्युतिकारकम् ममेत्यः नितिप्राज्ञः सङ्गपि च्युतिकारकम् देव्युवाच स्वल्पैरहोभिर्नृपदे त्वम् राज्यम् प्राप्स्यते भवान् फलत्वादिपो नखलितम् तव तत्र भविष्यति मृदप्रभूयत्तम् प्राप्य जन्मदेवाज्जिवस्वतः मृदप्रभूयत्तम् प्राप्य जन्मदेवाज्जिवस्वतः सावर्णिको भविष्यति सावर्णिको नावमनुर्भवान् ध्वलि भविष्यति वैश्यवर्यत्वया यस्य परोऽस्मत्तोऽभिवाञ्छितः वैश्यवर्यत्वया यत्र वरोस्मत्तोऽभिवाञ्छितः सम्प्रयत्थामिषम् सिद्ध्यैतवज्ञानम् भविष्यति सम्प्रयत्थामितम् सिद्ध्यैतवज्ञानम् भविष्यति मार्कण्डेय उवाच इति दत्त्वा तयोर्देवी वरम् इति दत्त्वा तयोर्देवी वरम् बहूवान्तर्हिता सद्यो भत्याताभ्यामभिस्कृता बहूवान्तर्हिता सद्यो भत्याताभ्यामविस्कृताम् एवम् देव्या वरं लब्ध्वा सुरसः क्षत्रियर्षभः एवम् सूरयाज्ज्य पावर्भ मनु द््स क्षत्रियर्ष्या वनम लब्ध्स क्षत्रियूरियान्मतमा पावर्भविता मनु सूरियातम आविता मनु इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये सुरथवैश्ययोर्वरप्रदानम् नाम त्रयोदशोऽध्यायः श्री ओ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये सुरसवैद्योर्वलप्रदानम् नाम त्रयोदशोऽध्यायः